श्रीहरये नमः अथ षष्टिंसोऽध्यायः राजोवाच लोकस्य कथमिति ऋषिरुवाच त्रिगुणत्वात् कर्तुश्रद्धया कर्मगतयः पृथक्विधा सर्वा सर्वस्य तारतं येन भवन्ति अतेदानीं प्रतिक्षिक्तलक्षणस्य अधर्मस्य तथैव कर्तुश्रद्धाया वैशादृश्यात्कर्मफलं विषदृशं भवति आह्यनाद्यविद्यया कृतकामानां तत् परिणाम श्रुत सहस्रस प्रवृत्तास्ता प्रचुर्येण नुवर्णय राजोच नर का नाम भगवन्की देश विशेष अथवा बहिस्त्रोक्या आहोस्वीदिवाच अन्तरालये त्रिजगत्यास्तु दिशि दक्षिणस्यामदस्ताद्भूमेर् उपरिष्टाच्च जलाद्यस्याम् अग्नेष्वा तातयः पितृगणादिशि स्वानां गोत्राणां परमेण समाधिना सत्याये वा आसानानि वसन्ति यत्र हवा भगवान् पितृराजो वैवस्वतस्व विषयं प्रापितेषु स्वपुरुषैर्जन्तुषो सम्परे तेषु यथा सगणोदमं धारयति तत्र कैके नरकान् एकविंशतिं गणयन्ति अतत्तांस्ते राजन् नामरूपलक्षणतो अनुक्रमिषयामस्तामिस्रो अन्धतामिस्रो रौरभूमकारौरभकुम्पीपाक कालसूत्रमसि पत्रवनं सुकरमुखमन्धकूपकृमिभोजनः सन्तं सस्तप्तः सुर्मेर्वज्रकण्टकसाल्मलीवैतरणी लालाभक्षसारमेयाधनम् अवीचिरयः पानमिति किञ्च शारकर्दमो रक्षोगणभोजन शूलप्रातो दन्तशूको बटनिरोदनः पर्यावर्तनशूचिमुखमित्यष्टाविंशतेर्नरका विविधयातना भूमयः तत्र अपहरति स यमपुरुषैः अधिभयानकेतामिश्रे नरके बालान्निपात्यते अनसनानुधपानदण्डताढन सन्तर्जनाधिभिर्यातनाभेन् यात्यमानो जन्तुर्यत्र कस्मलमासादित एकथैव मूर्च्छामुपयादिता मिश्रप्राये एवमेवान्धामिश्रेयस्नो वञ्चयित्वा पुरुषं तारातीन् उपयुङ्क्ते यत्र शरीरे निपात्यमानो यादनास्तो वेदनाया नष्टमतिर्नष्टदृष्टिश्च भवति यता वनस्पतिर्वृषश्च मानमूलः तस्मात् अन्धतामिश्रं तम् उपदिशन्ति यस्त्विघ वा एधतहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेव अनुदिनं प्रपोष्णाति सदधिकविहाय स्वयमेव दतशुभेन रौरवे जन्तवः परत्रयमयातना उभगतं तयेव भूत्वा तथा तमेव विहिंसन्ति तस्मात् रौरमित्याहुरुरुति सर्पाधति क्रूर सत्त्वस्यापदेशः एवमेव महारौरमो यत्र न पुरुषं क्रव्याधानाम रुरवस्तं क्रव्येण घातयन्ति यक्केवलं केवलं देहं भरः यस्विकवा उग्रः पक्षिणो वा प्राणत उपरन्धयति तम् अपकरुणं पुरुषाधैरपि विगर्हितममुत्र यमानुचर कुम्भीभागे तप्ततैले उभरन्तयन्ती यस्त्विकपितृभिप्रब्रह्मधृक्स कालसूत्रसंज्ञके नरकेम् अयुतयोजनपरिमण्डले ताम्रमये तप्तकले उपर्यदस्तात् अग्नयर्घाभ्याम् अतितप्यमाने अभिनिवेशितः क्षोत्पिभासाभ्यां च दह्यमान अन्तर्बहे शरीर आस्ते सेते चेष्टतेव तिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि यस्त्विकवैनिजवेदपथात् अनाभद्यपघतपाकण्डं शोभगतस्तम् असि पत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हा सा उभयतोद्धारै तालवन असि पत्रैश्चित्यमानसर्वाङ्गोः हतोऽस्मीतिपरमया वेदनया मूर्छितः पदे पदे निपतति स्वधर्मः पाखण्डानुगतं पलं भुङ्क्ते यस्विह वैराजराजपुरुषो वा अधण्ट्ये दण्टं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरके मुत्रसूकरमुखे निपतति तत्र अधिभलैर्विनिष्विष्यमाणावयवो यथैवेहेषु कण्ठ आर्तस्वरेण त्वनयन् क्वचिन्मूर्छितः कस्मलमुपगतो यथैव इहा दृष्टदोषा उपरुद्धाः यस्त्विकवैभूतानां ङीश्वरोप कल्पितौ वृत्तीनामविविविक्त परव्यतानां स्वयं पुरुष उपकल्पितवृत्तिर्विविक्त परव्य व्यथामाचरति स परत्रान्धगूपे तदभिद्रोहेण निपतति तत्र कासो धैर्जन्तु वसकयोकामद्गुणमक्षिकादिभिर्ये के चाभिद्रुक्तस्थे सर्वतोभिदृह्यमाणक्थमसि विहत निद्रा जीवः यस्त्विह वा असंविभज्या स्नाति यत्किञ्चनोपनतं न निर्मित पञ्चयज्ञो वायसंस्तुतस परत्र कृमिभोजने निपतति तत्र शतसहस्रयोजेन कृमिकुण्डे कृमिभूतस्वयं कृमिभिरेव भक्षमाण कृमिभोजनो यावद्ध अप्रप्ता ब्रहुधाधो निर्वेशम् आत्मानम् याधयथे <laughs> यस्त्विकवैस्तेयेन बलात्मा हिरण्यरत्नाधीनि ब्राह्मणस्य वा बहरति अन्यस्व नभधिपुरुषस्तममुद्रराजन्यमपुरुष अयस्मै अग्निपिण्ढै सन्तंश्चैस्त्वसि निष्कृषन्ति यस्त्विका वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषेत् गिच्छति तापमुत्रकषया ताडयन्तस् दिग्मया सूर्म्यालोहमय्या पुरुषमालिङ्गयन्ती स्त्रियं च पुरुषरूपया सूर्म्या यस्त्विकवै सर्वाभिगमस्तम् अमुत्रनिरये वर्तमानं वज्र कण्टकसाल्मलिम् आरोप्य निष्कषन्ति येद्भिकवैराजन्या राजपुरुषा वा अपाकण्ठाधर्मसेतून् विन्दन्ति ते सम्परेत्य वैतरण्यां इतस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानास् न स्वागेन कर्मपाकं अनुस्मरन्तो विण्मूत्रपूय शोणितकेशनघास्ते मेधोमां मां सवसा वाहिन्याम् उपतप्यन्ते येत्विकवैवृषलीपतयो नष्टसौचाचारं नियमास्त्यक्तलज्जा पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्म मलापूर्णार्णवे निपतन्ति तदेव अधिभिपस्थितम् अश्नन्ति येत्विह वै स्वगधर्भपतयो ब्राह्मणादयो मृगया विहार अतीर्थे मृगान् निघ्नन्ति तान् अपि लक्ष्यभूतान् यमपुरुषा इषुभिर्विद्यन्ते ये त्विक वैधाम्बिका दम्भयज्ञेषु पशून् विससन्ति तान् पतितान्निरयपतयो यातयित्वा विसन्ति यस्त्विह वै स्ववर्णां भार्यां द्विचोरेतः पाययति पापकृतं नमोत्र रेथकुल्यायां पातयित्वा रेतः सम्पायन्ति दस्य वोग्निधा गरता ग्रामान् सार्थान् वा विलोम्पन्ति राजानो राजभटा वा तांश्चापि हि परेत्ययमदूता वज्रद्रंष्टाश्वानसप्तशतानि विंशतिश्चसरभसं खादन्ती यस्त्विका वा अनृतं वदति साक्ष्ये द्रव्यविनिमये धानेव कथञ्चित् स वै प्रेत्य नरके अवीचिमध्यतः शिरानिरवकासे योजन स दोश्रायाद्गिरिमूर्ध्न सम्पाद्यते यत्र जलमिवत्स्थलम् अस्मस्पृष्टमवभासते दतवीचिमत्तिलसो विचीर्यमाणे शरीरो न म्रियमाणः पुनरारोपितो निपतति यस्त्विगवै विभ्रो राजन्यो वैश्यो वा सोमपीतस्तत्कळत्रं प्रमादतस्तेषां निरयम् नीताना मुरसिपता वग्निना द्रवमार्णं काष्णायसं निषञ्चन्ती अथ च यस्त्वि वा जन्मतपो विद्याचारवर्णाश्रमवतो वरीयसो न बहुमन्येत एव मृत्वा शराघर्तमे निरये अवाक्षिरा निपातितो धुरन्तायातना ह्यश्नुते ये द्विह पुरुषाः पुरुषमेधेन यजन्ते या याश्च स्त्रियो नृपया शून् खादन्ति तांश्च ते पसव इव निहतायमसदेन नृत्यन्ति च गायन्ति च गृह्यमाणायते क ये अनागसोरण्ये वा अनागसोऽ्ये ग्रामे वा वैश्रम्भकैरुश्रुतान् उपविश्रम्पय जिजीविषून् शूलशुद्रातिषु प्रीत्ययमयातनासु शूलादिशो प्रोतात्मानक्षुदृभ्या चापि हता कङ्कपटादिभेश्चेतस्ततस्थिग्मधुण्डैराहन्यमान आत्मसमलं स्मरन्तीं येत्विह वै भूतान्युद्वेजयन्ती नरावुल्बणस्वभावायत दन्तसुकास्तेऽपि प्रेत्य नरके दन्तसुखाक्ये निपतन्ति यत्र नृप दन्तसुखा पञ्चमुखा सप्तमुका उपश्रुत्य ग्रसन्ति यताभिलेशयान् ये द्विह वा भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेस्य सगरेण वंशिना धूमेन निरुन्धन्ति यस्त्विह वा अतिथिनप्याघतान् वा गृहपति उभगतमन्योर्धितक्षूरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरहें पापदृष्टे रक्षिणी वज्रतुण्डात् धृद्रा गङ्गकाकवडदाय प्रसख्योरुभलादुत्पाटयन्तीं यस्त्विका वा तिर्यत्प्रेक्षणः सर्वतोऽपि विसङ्ख्ये अर्तव्ययनास चिन्त्या परिशूष्यमाण हृदयवतनो निर्वृतिम् अनभगतो ग्रहगिवार्थम् अभिरक्षति स चापि प्रेत्य तदुत्पाद नोत्कर्षणसंरक्षणसमलग्रहः सूचीमुखे नरके निपतति यत्र कविद्ध ग्रहं पापपुरुषं धर्मराजन् पुरुषा वायका इव सर्वतोङ्गेषु श्रोत्रैः परिवयन्ती एवंविधा सन्ति सदसः सर्वेषु च सर्व एव अधर्मवर्तिनो ये केचिदिहोतिता अनुदिताश्चावनिपते पर्यायेण विसन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवेत् उभयशेषाभ्यां निविसन्ति निवृ तिलक्षणमार्ग आधौ एव व्याख्यात एतवानेव आण्डकोशो यश्चतुर्धशधात् पुराणेषु विकल्पितवुभगीयते यत्तद्भगवतो रूपम् आत्ममाया गुणमयम् अनुवर्णितम् आतृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनो ग्राह्यमपि श्रद्धा भक्तिविशुद्धबुद्धिर्वेध श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः स्थूले निर्जितं आत्मानं शनैः सूक्ष्मं दिया नयेदि भूद्वीपवर्षः सरित्तद्रिनभः समुद्र पादाळधिङ्नरकभाकणलोकसंस्था गीतामया तव नृपाद्भुतमीश्वरस्य स्थूलं वपुसकलजीवनिकाय धाम इति श्रीमद्भगवते महापुराणे वैयासिक्यामष्टाध ससाहस्यां परमहंस्यां संहितायां पञ्चमस्कन्दे नाम इति ष्ठिशोध्याय पंचमस्कता हरिव तस्तः गोपिजीवनस्मण गोविंद गोविंद सद्गुनाथ महराज की जय